श्री पादुका श्रीरङ्गनाथपादुकासहस्रं पद्धति ट्वेण्टिफोर् द्वन्द्वपद्धतिः अनिष्टु प्रपद्येपादुकारूपं प्रणवस्य कलाद्वयं पोदमिदमिदं यस्मिन्ननन्दस्यापि तत्पदम् वसन्तमालिका मणिपादुकयोर्युगं मयि नित्यं विदधातु मङ्गलानि अधिकृत्य चराचरस्य रक्षामनुकम्बाक्षमयोरिवावतारः चरणौ मणिपादुके मुरारेः प्रणदान् पालयितुं प्रपद्यमानम् प्रपदामिह दैवमानुषीणां प्रदिकारं युवयोर्द्वयं प्रदीमः मुरभिन्मणिपादुके भवत्योर्विहितो नो नमः सौमिधो विभागः भजतामपरस्परप्रियाणामविरोधाय सुरासुरेश्वराणाम् अहितोन्मथनाय संश्रितानां मलमालोकवशेन शब्दतो वा करयोश्च रथाङ्गपाजन्यौ मधुसन्धुःपदयोश्च पादुके अवधीरिदसाधुपद्धतीनामलसानां मधुवैरिपादुके मधुवैरिपादुकेद्वे। इतरेतरसाखचर्यमिद्धं प्रतिपन्ने इव दैवपौरुषेणः रथोद्धदा पार्श्वयो सरसिजावसुन्धरे पादयोश्च मणिपादुके युवां सन्निकर्षत न चेन्मदुद्विषक्तिं करिष्यदि कृदागसां गणः पादुके भावयामि भावया युवयो समागमं धनुज पदे विद्ययोरिव परावरात्मनोः रङ्गसीमनिरथाङ्गलक्ष्मणश्चिन्तयामि तपनीयपादुके शापदोशशमनायतत्पदे तत्पदे चक्रवाकमिथुनं कृदास्पदं मानयामि जगतस्तमोपहे माधवस्य मणिपादुके युवां दक्षिणोत्तरगतिक्रमोचिते पद्धती इव रङ्गनाथपदयोरलङ्क्रिया राजदे कनकपादुकाद्वयी तद्विभूतियुगलीव तादृशी चन्ददसमविभागमाश्रिदा वसन्ततिलकं साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ मानोपपत्तिनियते मणिपादुके द्वे अन्योन्यसङ्गदिवशादुपपन्नचर्याम् आज्ञां श्रुति स्मृतिमयिमवधारयामि विश्वोपकारमधिकृत्य विहारकालेष्वन्योन्यतः प्रथममेव दृष्टान्तयन्ति युवयोर्मणिपादरक्षे दिव्यं तदेव मिथुनं द्वावेव यत्र चरणौ परमस्य पुंसस्तत्र द्विधा यत्रैव दर्शयदि सहस्रपात्वं तत्रापि नूनमसि दर्शित तावदात्मा पर्यायतो गदिवशान्मणिपादरक्षे पूर्वापरत्वनियमं व्यधिवर्तयन्त्यौ मन्ये युवां महदि विष्णुपदे स्फुरन्त्यौ अश्रांत सन्ध्ये समस्तजगदामभिवन्दनीये अश्रान्तसञ्चरणयोर्निजसम्प्रयोगादम्लानं चरणपङ्कजयोर्दिशन्त्यौ मान्ये युवां रघुपदेर्मणिपादरक्षे विद्ये बलामदिबलाञ्च विचिन्तयामि मन्दाक्रान्ता अन्धर्मोघादविदिधवदामात्मतत्त्वं यथावत्पद्यामित्तं परिचितवदां पादुके पापलोक्यां नित्यं भक्तेरनुगुणतया नादपादं भजन्त्यौ निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिकेनः न्यस्तं विष्णोः पदमिह महत् स्वेन भुम्ना वसन्त्योर् आम्नायाख्या मविहदगतिं वर्तयन्त्योर्निजाज्ञाम् आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः द्वै राज्यश्रीर्भवति जगदा मैकराज्ये भवत्योः अप्राप्तानामुपजनयधसम्पदां प्राप्तिमेवं संप्राप्तानां स्वयमिह पुनः पालनार्थं यथेथे साक्षाद्रङ्गक्षिदिपदिपदं पादुके साधयन्त्यौ योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः भीति बद्धहरिपादयुगलं युगलं तपनीयपादुगे युवयोहो मोचयदि संश्रितानां पुण्यापुण्यमयशृङ्खला युगलम् इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे द्वन्द्वपद्धतिश्चतुर्विशी Om